प्रेद धर्म गरडपुराणम प्रेतकांडम धर्मकांडम अयट स्वामिन स्वामी सर्व ये वोर्धि के क्रिया कतिविधा प्रोक्ता वदै तत्सम श्रीकृष्ण उवाच पुत्रपौत्र प्रपौत्रो वा तद्भ्रादाभ्राद सन्ततिः सपिण्डसन्तदेर्वा विक्रियार्हा खग ज्ञादयः तेषामभावे सर्वेषाम् समानोदकसन्ततिः कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिकार्या क्रिया खगा इच्छयोच्छिन्नबन्धश्च कारये दवनीपतिः पूर्वाक्रिया मध्यमाश्च तथा चैवोत्तरा क्रियाः प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानदः श्राद्धं तत्र प्रकर्तव्यं पदं तस्य शृणुष्व ब्रह्मेन्द्र रुद्र नासत् सूर्याग्निवसुमारमान् विश्वे देवान् पितृगणान्वयं सिमनुजान् पशून् सरीसृपान् मातृगणान्यच्चान्यद्भूत संस्मिदं श्राद्धं श्रद्धान्विधकुर्वन् प्रेणयत्यखिलं जगद ते तृप्तास् तर्पयद्येन पुत्रदारधनैस्तद्धा अधिकारक्रियाभेदः समा सात्ते निरूपितः गरुड उवाच उक्तेष्वे कोऽपि चेन्न स्यादधिकारी सुरोत्तम कर्तव्यं किं तदा विष्णोपुरुषेण विजानता श्रीकृष्ण उवाच अधिकारो यदा नास्ति यदि नास्ति च निश्चयः जीविते सदि श्राद्धं स्वयं नरः कृतोपवास सुस्नाधकृष्णा सङ्घः समाहिदः कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेद् स दक्षिणाश्च स जलधेनवः निवेदयेत्पिदृभ्यश्च स्वधेदि सुसमाहितः अग्नये कव्यवाहनाय स्वधा नम यदि स्मरन् सोमाय त्वापि दृमदे स्वधा नम इति स्मरन् दक्षिणेन दुदत्याश्च तृदीयां दक्षिणायुधां यमायां गिरसे चाधस्वधा नम तयोर्मध्ये तु निःक्षिप्य विप्रां सं मन्त्र्य भोजयेद प्रथममुत्तरेण्यस्य द्वितीयां दक्षिणेऽन्यसेद मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम् आवाहनादिना पूर्वं विश्वे देवान् प्रपूज्य च वस्तुभ्यस्त त्वामहम् विप्र रुद्रेभ्यस्त्वामहम् तदह सुरेभ्यस्त्वामहम् विप्रभोजयामीदि तान्वदेद आवासनादिकम् शेषम् कुर्याच्च पितृशे श्रवद साम्याम् धेनुम् तदो दद्याद्वसुद्देश्यम् द्विजायतु आग्नेयां चाधरौद्राययाम्यां सूर्यद्विजायतु विश्वेभ्यश्चाधदेवेभ्यस्तिलपात्रं निवेदयेद स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वा ददान् द्विजान् विसर्जये स्मरन् विष्णुं देवमष्टाक्षरं विभुं तदकामं कुलेशानीं शिवं नारायणं स्मरेद चतुर्दश्यान्तदो गच्छेत् यथा प्राप्तां सरिद्वरां वस्त्राणि लोकखण्डानि जितं त इति सं जपन् दक्षिणाभिमुखो वाग्निं ज्वालये तत्रचस्वयं च स्वयं पञ्चाशदाकुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दधेद कृत्वा श्मशानकं होमं पूर्णा हुत्यन्तमेवहि निरग्रिमथवा भूमिं यमं रुद्रं च संस्मरेद हुक्त्वा प्राधान्यगेतानि पश्चा दवाकये च दं श्रपये च परं वह्नौ मुद्गमिश्रं चरुन्तदः तिलतण्डुलमिश्रं च द्वितीयं सपवित्रकम् ॐ पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेद ॐ यमाय नमश्चेदिद्वितीयं तदनन्तरम् ॐ नमश्चाध रुद्राय श्मशानपदये नमः तदो दीप्ते समिधेघ्नौ भौमौ प्रकृतिदारुणे सप्तभ्यो यम संज्ञेभ्यो दद्यात्सप्तजलाञ्जलीन् यमाय धर्मराजाय मृत्यवेशान्तकाय च वैवस्वदायकाय सर्वप्राणहराय जा स्वधानमस्कारप्रणवै सहसप्तधा अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् प्रदद्याग्दश पिण्डांस्तु अर्कपुष्पसमन्विधान् धूपो दीपो बलिर्गन्ध सर्वेषामस्तु चाक्षयः दशपिण्ठांस्तु दान् दत्त्वा विष्णोः सौम्यं मुखम् स्मरेद कुर्याच्च मासिकम्मासि सपिण्डीकरणं तदः आशौ चान्दे तदा कुर्यादात्मनो वा मरस्यदु कुर्यादत्तिरधाम् ज्ञात्वा शक्त्यारोग्यधनायुष्यम् ये दत्ते सर्वमाख्यातं जीवश्राद्धं मया खग यदि श्री गारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धकर्त्रात्मश्राद्धयोर्निरूपणम् नामाष्टमोऽध्यायः ओम्